श्रीहरये नमः अथ अष्टमोऽध्यायः अथ ते सम्परेतानां स्वानांदकमिच्छतां धातुं सकृष्णगङ्गायां पुरस्कृत्य सर्वे विलप्य च पृशं पुनः आप्लुता हरिपादाब्ज रजपूतसरिज्जले तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजं गान्धारीं पुत्रसोकार्तां प्रथां कृष्णां च माधवः सान्त्वयामास मुनिभिर्हतभन्तुन् सुचार्पितान् भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् सादयित्वा अजातशत्रो स्वं राज्यं किवैर्हृतं घातयित्वा सधो कचस्पर्शधायुषः याजयित्वा अश्वमेतैस्तं त्रिभे उत्तम उत्तमकल्पकैः तत्यसः पावनं दिक्षु सतमन्योरिव आधनोथ आमन्द्र्यवाण्डुपुत्रांश्च सैन्ययोद्धवसंयुतः त्वयि पायनादिभिर्विभ्रैर्पूजितः प्रतिपूजितः गन्तुं कृतमतिर्ब्रंहन् उपलेभे भितावन्तीम् उत्तरं भयविह्वलाम् उत्तरो वाच पाहि पाहि महायोगिन् देवदेव जगत्पते नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् अभिद्रवति मामीश सरस्तप्तायसो विभो काम दहत मामनाथ मे गर्भो निपत्यथ सोत उच उधार्य वचस्त भगवान्क्त अभांटवमिधं अभांडव मिध द्रौड़ेस्त्रम अभ्युदर्ह ये तब मुश्रेष्ठ पाण्डवाः पञ्चसायकान् आत्मनोभिमुखान् दीपालक्ष्यास्त्राण्युबाधदुः व्यसनं वीक्ष तत् तेषाम् अनन्यविषयात्मनां सुदर्शनेन स्वास्त्रेण स्वानां रक्षाम् यथा विभुः अन्तस्तः सर्वभूतानाम् आत्मा योगेश्वरो हरिः स्वमायया वृणोद्गर्भं वैराढ्या यद्यप्यस्त्रं ब्रह्म शिरस्थो अमोघं चाप्रतिक्रियं वैष्णवं तेज आसाध्य समसां यत् बृहूध्वः मामं स्थाह्येतस् आश्चर्यं सर्वाश्चर्यमयेश्च्युते य इदं मायया देव्यां सृजत्यवति हन्त्यजः ब्रह्म तेजोभि निर्मुक्थैः आत्मजैः कुन्त्युवाच नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् अलक्ष्यं सर्वभूतानां अन्तर्बगिरवस्थितं माया जवनीकाच्छन्नम् अज्ञादोषजम् अव्ययं न लक्ष्यसे मूढदृश नठो ना नाट्यधरो यथा तथा परमहंसानां मुनीनामलात्मना भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्गजनाभाय नमः पङ्गजमालिने नमः पङ्गजनेत्राय नमस्ते पङ्कजाङ्ग्रहे यथा ऋषि केश देवकी कंसेन रुद्धातिशिरं स चार्पित विमोचिदाखं च सगात्मजा विभो त्वयैव नाथेन मुहुर्विभकर्णाद विषान्नहाग्ने पुरुषात् दर्शनात् असत् सभाया मृदे मृदेकमहारदाश्रतो त्रौण्यस्त्ररश्चास्म हरेऽभिरक्षिताः विभधत् सन्तु नः सस्वत् भवतो दर्शणम् यश्चात् जन्मैश्वर्यश्रुतश्रीभिं एतमानमधः पुमान् नैर्वाहत्यभिधातुं वै त्वाम किञ्चन गोचरं नमो निवृत्तगुणवृत्तये आत्मा रामाय नमः मन्ये त्वां कालमीशानम् अनादिनिधनं विभुं समं शरन्तं सर्वत्र भूतानां यन्मितः कलिः न वेद कश्चिद्भगवंश्चिकीर्षितं तवेगमानस्य नृणां विडम्बनं न यस्य कश्चित् दयितोऽस्ति कर्हि चेत् द्वेषश्च यस्मिन् विषमामदिर्नृणा जन्म कर्म च विश्वात्मन् अजस्य अकधुरात्मनः तिर्यङ्गृषुषु यात सुददद्यन्तविडम्बनम् गोप्याधते त्वयि कृतघसि धाम तबद् सम्भ्रमाक्षं वक्त्रं निनीयभयभावनयास्ति तस्य सा मां विमोहयति बिरपि यत् बिभेति केचिदाहूरजं जातं पुण्यश्लोकस्य कीर्तये यतो प्रियस्यान्ववाये मलयस्येव सन्धनम् अपरे देवज्ञां याचिदोऽभ्यगाद् अजस्त्वमस्य क्षेमाय पदाय च सुरद्विषां पारावधारणाय अन्ये भुवो नावगिवोधौ सीधन्त्या भूरिभारेण जातो ह्यात्मभुवार्तितः भवेस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः श्रवणस्मरणार्हाणि करिष्यन्निति केशन शृण्वन्ति गायन्ति कृष्णन्त्यभीक्षणस स्मरन्ति नन्दन्ति तवेहितं जनाः त एव चिरेण तावकम् भवप्रवाहो परमं पदाम्बुजम् अव्यत्यनस्त्वं स्वकृते हि तप्रभो जिघाससि स्वित् सुहृदो नुजीविनः येषां न चान्यद् भवतः पदाम्बुजात् परायणं केवयं नामरूपाभ्यां यदुभिस्सह पाण्डवाः भवतो दर्शनं गर्ह्ये हृषिकाणां विवेशितुः नेयं सोभिष्यते तत्र यदे धानीं गता धर त्वत्पैतरङ्गिता स्वलक्षणविलक्षितैः इमे जनबथा स्वरुद्धा सुपक्वौषधिरुतः वनाद्रिनद्युधन्वन्तो ह्यदे तव अतविष्मेश अथ विश्वात्मन् विश्वमूर्ते स्वकेषु मे स्नेहभासमिमं चिन्त्यं पाण्डुषु वृश्मिषु त्वयि मेनन्यविक्षयामधिर्मधुपते सहृद् हृदिमुद्वहता दद्धा गङ्गेवौघम् उधन्वती श्रीकृष्ण कृष्ण सख वृष्ण्य ऋषभ अवनिदृग् राजन्यवंसतः अनभवर्गवीर्य गोविन्द गोद्बिजसुरार्तिहरावतार योगेश्वर अखिल गुरो भगवन्नमस्ते सूत उवाच प्रतयेत्तं कलभतैर्परिणुताखिलोधयः मन्दं जहास वैकुण्ठो मोहयन्निवमायया ताम्भाटमिति उपामन्त्र्या प्रविश्य जगजसाह्वयं स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः व्यासाद्यै ईश्वरोज्ञै कृष्णेनाद्भुतकर्मणा प्रबोदितोऽपीतिहासैर्नाबुद्ध्यतश्चार्पितः आहराजा धर्मः सुतश्चिन्त्यन् सुहृदाम्बथं प्राकृतेनात्मना विप्रा स्नेहमोहवसङ्गतः अहोमपश्यदाज्ञानम् हृदि रोटं दुरात्मनः पराक्यस्यैव देहस्य बह्वयो मे क्षौनिर्हता बालद्विजसुहृन्मित्र पितृभ्रातृगुरुदृगहां न मेष्यान्निरयान् मोक्षो ह्यभीवर्षायुधायुधैहे नैनो राज्ञप्रजाभर्तुर्धर्मयुधेव वधोद्विषाम् इतिमेन मेन तु भोधाय कल्पते शासनं वशः स्त्रीणामधन्धूनां द्रोहो योसा विहोत्थितः कर्मभिर्गृहमेधीये नाहं कल्पो व्यबोहितुं यथा पङ्केन पङ्काम्भ शुरया भूतहद्यां तैतवैकाम् न यज्ञैर्माष्टुमर्हति इति श्रीभागवते महापुराणे प्रथमस्कन्ते कुन्तीस्तुतिर्यदिष्ठानुतापो नाम अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराजिके जय